ीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत् ह्रीश्च क्रोधश्च बीभत्सु क्षणेनान्वा ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा यत्कृतम् तत्र पार्थेन तच्चकारमहाबलः अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत कर्णम् ततो वचनमब्रवीत् दुर्योधन उवाच स्वागतंते महाबाहो दिष्ट्या प्राप्तो मानद अहम् च कुरु राज्यम् च यथेष्टमुपभुज्यताम् कर्ण उवाच कृतम् सर्वमहम् मन्ये सखित्वम् च त्वया पार्थेन कर्तुमिच्छाम्यहम् प्रभो दुर्योधन उवाच भुङ्क्ष्वभोगान् मया सार्धम् बन्धूनाम् प्रियकृद्भव दुर्हृदाम् कुरु सर्वेषाम् मूर्ध्नि पादमरिन्दम वैशम्पायन उवाच ततः क्षिप्तमिवात्मानम् मत्वा पार्थोऽभ्यभाषत कर्णम् भ्रातृसमूहस्य मध्ये चलमिव स्थितम् अर्जुन उवाच अनाहूतोपसृष्टानाम् अनाहूतोपजल्पिनाम् ये लोकास्तान् हतः कर्ण कर्ण उवाच रंगोयम कि तव फागुन वीरश्रेष्ठाच राजो बल धर्मोनुवर्तते किं क्षेपर्दुर्बलायासैश् शर कथय भारत गुरो सवत् हरां यद शिश्शरई